एष धर्मः पुरा दृष्टः सर्वधर्मेषु भारत ब्राह्मणाच्छ्रवणम् राजन्विशेषेण विधीयते भूयो वायः पठेन्नित्यम् स गच्छेत्परमाम् गतिम् श्लोकं वाप्यनुगृह्णेत तथार्धश्लोकमेव वा अपि पादं पठेन्नित्यं न च निर्भारतो भवेत इह नैकाश्रयं जन्मराजर्षीणां महात्मनाम् इह मन्त्रपदं युक्तं धर्मं चानेकदर्शनम् इह युद्धानि चित्राणि राज्ञां वृद्धिरिहैव च ऋषीणाञ्च कथास्तात इह गन्धर्वरक्षसाम् इह तत्तत् समासाद्यविहितो वाक्यविस्तरः तीर्थानाम् नाम, नाम पुण्यानाम् देशानाम् चेहकीर्तनम् वनानाम् पर्वतानां च नदीनाम् सागरस्य च देशानां देशानाञ्चैव पुण्यानां पुराणां चैव कीर्तनम् उपचारस्तथैवाग्र्यो वीर्यमप्यतिमानुषम् इह सत्कारयोगश्च भारते परमर्षिणा रथाश्ववारणेन्द्राणां कल्पना युद्धकौशलम् वाक्यजातिरनेका च सर्वमस्मिन् समर्पितम् श्रावयेद्ब्राह्मणाच्छ्राद्धे यश्चेमम् पादमन्ततः अक्षय्यम् तस्य तच्छ्राद्धमुपावर्तेत् पितृनिह